श्रीमद्भागवत् महापुराणं दसंस्कन्धं नमस्तुभ्यं भगवते पुरुषाय महात्मने भूताभाषाय भूताय पराय परमात्मने ज्ञानविज्ञाननिधिये ब्रह्मणे नन्दशक्तये अगुणाय विकाराय नमस्ते प्राकृताय च कालाय कालनाभाय कालावयवसाक्षिणे विश्वाय तद्रूपद्रष्टे तद्गणते विश्वहेतवे भूतमातेन्द्रियप्राणमनोबुद्ध्यासयात्मने त्रिगुणेनाभिमानेन गुणस्वात्मानुभूतये नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपस्थिते नानावादानुरोधाय वाचवाचकशक्तये नवप्रमाणमूलाय ना कवेशासयोनये प्रवृत्ताय निवृत्ताय निगमाय नमो नमः नमः कृष्णाय रामाय वासुदेवसुताय च प्रद्युम्नाय निरुद्धाय सात्वतां पतये नमः नमो गुणप्रदीपाय गुणात्मच्छादनाय च गुणवृत्योपलक्ष्याय गुणद्रष्टेषु संविदे अव्याकृतिविहाराय सर्वव्याकृति ी के स नमस्तेऽस्तु मुनिये मौनशीलिरे परावरगतिज्ञाय सर्वाध्यक्षाय ते नम अविश्वाय च विश्वाय तद्द्रष्टे शिचहेतवे त्वं ह्यस्य जन्मस्थिते संयमानप्रभो गुणैरनीहो कृतकालशक्तिधे तत्तस्वभावान् प्रतिबोधयन्सत तमेक्षया मोगविहारीहसे तस्य विते स्तन्वस्त्रिलोक्यां शान्ता अशान्तावुत मूढयोनय शान्ताप्रियास्तेषधुना वितुं सतां धातुश्च ते धर्मपरे सहेतव अपराधसकृद्भर्तां सोढव्य स्वप्रजाकृतः चतुर्म सान्तात्मन्मूढस्य त्वामजानत अनुगृह्णीष्व भगवन् प्राणात्यजति पन्नगः स्त्रीणां न साधुशोच्यानां पतिप्राणप्रदीयताम् विधेहि ते किङ्करीणाम् अनुष्ठेयम् तवाज्ञया यथ्रद्यानुषितन्वै मुद्यते सर्वतोभयाद् श्रीशोकुवाच इत्थं स नागपत्नीभिः भगवान् समभिष्टुतः मूर्छितं भग्नशिरसं दिससर्जाघ्रिकुट्टनैः प्रतिलब्धेन्द्रियप्राणकालियसनकैर्हरिं कि समुच्यसन् दीन कृष्णं प्राह कृताञ्जलिः कालिय उवाच वयं खलासहोत्पत्त्यां तामसा दीर्घमन्यवः स्वभावो दुष्यजो नाथ लोकानां यदसद्ग्रह दया श्रेष्ठमिदं विश्वं धातर्धातर्गुणविसर्जनं नानास्वभाववीर्यो जोयो जो निबिजाशया कृते दयं च तत्र भगवन्तर्पाजात्योर्मन्यवः कथं त्यजामस्वन्मायां दुस्तजां मोहिता स्वयम् भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वरः अनुग्रहं विग्रहं वा मन्यसे तद्विधेहिनः श्रीशोकुवाच इत्याकर्णवच प्राह भगवान् कार्यमानुषः नात्रस्थेऽहं तया सर्पसमुद्रं जाहिमाचिरं स्वाज्ञात्पत्यदाराढ्यो गोनभिर्भुज्यतां नदी य एतत्संस्मरेऽन्मर्त्यस्तुभ्यं मदनुशासनं कृत्यन्नुभयो सन्ध्यो न युष्मन्भयमाप्नुयान् योऽस्मिन् स्नात्वा मदा क्रीडे देवादिस्तर्पये जले उपोष्य मां स्मरन् स्मरन् प्रमुच्यते दीपं रमणकं ह्यत्वा हृदमेतमुपासितः यद्भया स सुपर्णस्त्वां नाद्यान्मद्पालयाचितं श्रीशोवाच एवमुक्तो भगवता कृष्णेनाद्भुतकर्मणा तं पूजयामास मुदा नागपत्न्यस्य सादरं दिव्याम्बरं शृङ्मणिभिः परार्शैरपि भूषणैः दिव्यगन्धानुलेपैश्च पूजयित्वा जगन्नाथं प्रसाद्य गुरुणध्वजम् तदपेतोऽभ्यनुज्ञातपरिग्रम्याभिमन्दितम् सबलं सकलन्तं हृहृत्पुत्रो दीपमब्धे जगामः तदैव सामृतजलां यमुना भगवत अनुग्रहाद्भगवत क्रीडामानुसरूपिणः इति श्रीमद्भागवते महापुराणे पारंसां शयितायाम् दस स्कंधे पूर्वाधे कार्यमोक्षण नाम षोडश्याय